शैवद्भागवत् महापुराणं दसंस्कन्ध सप्तसप्ततितमोऽध्यायः गदायां सन्निवृत्तायां सार्वसस्त्वन्तरधीयत ततो मुहूर्त आगत्य पुरुषशिरसाच्युतं देवक्या प्रहितोऽस्मीति न त्वा प्राहवचो रुदन् कृष्णकृष्णमहाबाहु बद्ध्वापनीतः साल्वेन शौनिकेन यथा पशुः निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः विमनस्को घृणीस्नेहाद्मभासे प्राकृतो यथा कथं राममं सम्भ्रान्तं जित्वा जेयं सुरासुरैः साल्वेनापिल्यानीत पिता मे बलवान् विधि इति ब्रुवाळे गोविन्दे सौभराट् प्रत्युपस्थितः दशदेवमिमालीय कृष्णं चेदमुवाचस एष ते जनिता तातो यदर्थमिह जीवसि वधिस्ये विक्षन् विक्षतस्ते मुमीषस्येत पाहि बालिश देवं निर्भस्य मायावी खड्गे नानकदुन्दुभेः उत्कृत्य शिर आदाय कस्थम्भो शोभं समाविशत् ततो मुहूर्तं प्रकृतावुपप्लुतः सबोध आस्ते स्वजनानुषङ्गत महानुभाव तद्बुद्धिदासुरीम् मायां स सार्वप्रभृतं प्रसृतां मयोदितां न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समुपञ्चदत्युतः स्वाप्नं यथा चाम्बरचारिणं नृपुं स्वभस्तमालोक्यनिहन्तमुद्यतः देवं वदन्ति राजर्षे ऋषय केचनान्विता यस्ववाचोन्विरुध्ये त नूनं तेन स्मरन्त्युत क्व स्वोकमोभौ स्नेहो यद्पादसेवोर्जिति आत्मविद्यया हिण्त्यनाद्यात्मविपर्ययग्रहं लभन्तयात्मीयमनन्तमेश्वरं कुतो न मोहपरमस्य सद्गते तं सहस्रपूगैः प्रहरन्तमोजसा ताल्वं सरैसौरिरमोघविक्रम विध्वां छिनन्वर्मधनुशिरोमणिं शोभं च शत्रुर्गदयारुजः तत्यष्णहस्ते या विचूर्णितं ये गदया सहस्रधा विसृज्य गदा मद्यम्म साल्ब्वोचितमभ्युगाद्भुतम् आधावत सगदं तस्य बाहुं भल्लेन चित्त्वाथ रथाङ्गमद्भुतं वधाय साल्वस्य जारते नैव शिरसकुण्डलम् क्रीटयुक्तं पुरमायिनोहरि दद्रेण वृत्तस्यथा पुरन्दरो बभूवहाहेतिवचस्तदालिणां तस्मिन्ननिपतते पापे शोभे च गदयाहते ने दुर्दन्दुभयो राजन् दिविदेवगणोरिताः सखी नामपचितिं कुर्वन्दन्तवक्त्रोरुषाभ्यगात् इति श्रीमद्भागवती महापुराणे परमहिंसां चैतायां दशमस्कन्धे पुत्रार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः